वचनहीनाय नमः ॐ वचनसाक्षिणे नमः ॐ वृष्टिसाक्षिणे नमः ॐ विराट्स्वरूपाय नमः ॐ विदुषे नमः ॐ व्यष्टेविवर्जिताय नमः ॐ विराट् नमः ॐ विकल्पदूराय नमः ॐ विराट्साक्षिणे नमः ॐ विश्वचक्षुषे नमः ॐ विश्वहेनाय नमः ॐ विश्वात्मने नमः ॐ वन्ध्यासुतसदृशजगत्साक्षिणे नमः ॐ विशुद्धरूपाय नमः ॐ शुद्धाय नमः ॐ शक्राय नमः ॐ शान्ताय नमः ॐ शाश्वताय नमः ॐ शिवाय नमः शून्यविहरणाय नमः ॐ शोभनाशोभमानाय नमः ॐ शङ्कराद्वैतवन्द्याय नमः ॐ शुद्धाशुद्धविवर्जिताय नमः ॐ शुक्तिरूप्यसाम्यजगत्साक्षिणे नमः ॐ श्रेयसे नमः ॐ श्रेष्ठिने नमः ॐ शुभ्राय नमः ॐ शून्याय नमः ॐ शंकराय नमः ॐ शब्दब्रह्मणे नमः ॐ शरदाकाशसदृशाय नमः ॐ शुद्धचैतन्यरूपिणे नमः ॐ शगमविदयेन शिवाय नमः ॐ शकतुल्यजगत्साक्षिणे नमः ॐ सच्चिदात्मकाय नमः ॐ षडाधारस्वरूपाय नमः ॐ षट्कोशरहिताय नमः ॐ षडोर्मेवर्जिताय नमः ॐ षडाधारविलङ्घिताय नमः ॐ षट्शास्त्रलङ्घिताय नमः ॐ षण्मतातीताय नमः ॐ षडाधारसाक्षिणे नमः ॐ षट्शास्त्रैकरहस्यविदे नमः म् सदसद्भेदहेनाय नमः ॐ सङ्कल्परहिताय नमः ॐ सदाविचाररूपाय नमः ॐ सर्वेन्द्रियविवर्जिताय नमः ॐ सर्वाय नमः ॐ सच्चदानन्दाय नमः ॐ साक्षसाक्षित्ववर्जिताय नमः ॐ सर्वप्रकाशरूपाय नमः ॐ सर्वसम्बन्धवर्जताय नमः ॐ सम्भेदरूपाय नमः ॐ सर्वभूतान्तरस्थिताय नमः ॐ सर्वेश्वराय नमः ॐ सर्वसाक्षिणे नमः ॐ सर्वानुभूताय नमः ॐ सुखस्वरूपाय नमः ॐ साक्षिहीनाय नमः ॐ सुदाशिवाय नमः ॐ सुदोदिताय नमः ॐ सर्वकर्त्र्यमः ॐ सर्वगाय नमः ॐ सनातनाय नमः ॐ सन्मात्राय नमः ॐ सद्धनाय नमः ॐ सर्वव्यापि नमः ॐ सर्वविलक्षणाय नमः ॐ सर्वातीताय नमः ॐ सर्वभर्त्रय नमः ॐ सर्वस्तोत्रविवर्जिताय नमः ॐ सुखातीताय नमः ॐ सुकारम्भाय नमः ॐ स्वपाय नमः ॐ सुखवारिधय नमः ॐ सुखदयाय नमः ॐ स्वयं ज्योतिषे नमः ॐ सर्वत्रावस्थिताय नमः ॐ स्वयम्भुवे नमः ॐ संसारहेतवे नमः ॐ स्वय नमः सङ्कल्पसाक्षिणे नमः ॐ सर्वशान्ताय नमः ॐ सर्वशक्ताय नमः ॐ स्वतन्त्राय नमः ॐ सर्वशक्तिमते नमः ॐ स्थूलसाक्षिणे नमः ॐ सूक्ष्मसाक्षिणे नमः ॐ स्वप्नकल्पितवर्जिताय नमः ॐ समानसाक्षिणे नमः ॐ स्वरूपानन्दाय नमः ॐ स्पर्शसाक्षिणे नमः ॐ स्वप्नकल्पनासाक्षिणे नमः ॐ समष्टिरहिताय नमः ॐ समष्टिव्यष्टिहेनाय नमः ॐ सत्तामात्रस्वरूपिणे नमः ॐ सुषुप्तिकल्पनाहेनाय नमः ॐ सर्वकर्मकर्त्रे नमः ॐ सुषुप्तिकल्पनासाक्षिणे नमः ॐ सच्चिदानन्दवर्जिताय नमः ॐ सर्वानुभवरूपाय नमः